द्रष्टुकामा सभां चैव धर्मराजं युधिष्ठिरं न कश्चिदाहरत्तत्र सहस्रावरमर्हणं रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात् यज्ञमित्यैव राजानः स्पर्धमानाददुर्धनं भवनैः स विमानाग्रैः सोदर्कैर्बलसंवृतैः लोकराजविमानैश्च ब्राह्मणावसथैः सह विचित्रैरत्नवद्भिश्च रद्ध्या परमया युतैः राजभिश्च समावृत्तैरतिव श्रीसमृद्धिभिः अशोभत सदो राजन् कौन्तेयस्य महात्मनः विध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः षडग्विनाथयज्ञेन सोय सर्वान् जनान् सर्वकामै समृद्धैः समतर्पयत् अन्नवान् बहुभक्ष्यश्च भुक्तवज्जनसंवृतः रत्नोपहारसम्पन्नो बभूव समागमः इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः तस्मिन् हि तत्र पुर्देवास्तते यज्ञे महर्षिभिः यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः तत्र पुःसर्ववर्णाश्च तस्मिन् यज्ञे इति श्रीमहाभारते सभापर्वणि राजसूयपर्वणि यज्ञकरणे पञ्चत्रिंशोऽध्यायः